हरिओं श्री जगदंबिका नम अथ देवी भागवत महापुराणे द्वितीय स्कंधे ष्ठ्याय सुत उवाच्यवती शतनुना कि मृत काल वशाद पी, व्यासवेद्या तु सञ्जा धृतराष्ट्रोऽन्ध एव च मुनिं दृष्ट्वा स कामिन्या नेत्रसम्मिलने कृते श्वेतरूपायतो जाता दृष्ट्वा व्यास व्यासं नृपात् मया व्यासकोपात् समुत्पन्ना पाण्डुसेनान संचयः सन्तोषितस्तया व्यासो दास्या कामकला विदा, विदा। वितरस्तु समत्पन्नो धर्मश्च सत्यवाक्षुचिः राज्ये संस्थापितः पाण्डुकनैयान्नपि मन्त्रिभिः अन्धत्वाधृतराष्ट्रशोनाधिकारे नियोजितः भीष्मस्यानुमते राज्यं प्राप्य पाण्डु महाबरः वितरोऽप्यर्थ मेधावी मन्त्रकार्ये नियोजितः धृतराष्ट्रस्य द्वे भार्ये सौबली स्मृता द्वितीया च तथा वैश्यागर्हस्थेषु प्रतिष्ठिता पाण्डोरपि तथा पत्न्यो द्वे प्रोक्ते वेदवादिभिः शौरसेनी तथा कुन्ती च मद्रदेशजा गांधारी सुभे पुत्र शतम् वैशाप्येकं सुधं कान्तं युयुद्धं सुषुवे प्रियम् कुन्ती तु कन्या सूर्यात्करणं मनोहरं। शुशुवे पितृगेहस्थाय पश्चात् पाण्डुपरिग्रहषयौचु किम् एतत् सूतचित्रं त्वं भाषते मुनिसत्तम जनितश्च सुतः पूर्वं पाण्डुनासा विवाहिता सूर्याकर्ण कथ कन्या कन्या कथम जाता पांडुना चूरसेन सुधा कुल भाव यदा कीभोजन राजा तो प्राथिता कन्या का शुभा कुोजन सा परिकलिता सेवनार्थम् तु वीता भीता चाहासिनी दुर्वासास्तु मध्ये प्राप्त चतुर्मासे स्थितो द्विज परिचर्या कृता कुन्त्या मनितोषम् जगामः दयो मन्त्रम् शुभम् तस्यै येन हूतस्वर स्वयम् समायाति तथा कामम् पूरयिष्यति वाञ्छितम् गते मनो तस्य कुन्ती निश्चये स्थिता चिन्तयामास मनसा कंसुरं समचिन्तये उदितश्चेतदा भानुतया दृष्टो दिवाकरः मन्त्रोच्चार मण्डलान् मानुषं रूपं कृत्वा सर्वोऽतिस्पेशलम् अवतारे तदाकाश समीपे तत्र मन्दिरे दृष्ट्वा देवम् समायान्तम् कुन्तीं भानुम् सुविस्मिता वेपमानार्जो दोषम् प्राप्ता सद्यस्तु भामिने कुताञ्जलि सूर्यं भवाचे भव चेचारुलोचना सुप्रीता दर्शनेनाद्य गच्छत् त्वम् निजमण्डलम् सूर्य आहूतोऽस्मि कथं कुन्ति त्वय मन्त्रबलेन वै न मां भजसि कस्मात्त्वं समाहूय पुरोगतम् कामार्तोऽस्मि असितापाङ्गी भज माम् भावसंयुतम् मन्त्रेणाधीनताम् प्राप्तं क्रीडितुं नियमामिति कुन्ति उवाच कन्यास्म्यहं तु धर्मज्ञ सर्वसाक्षिन् नमाम्यहम् वाप्यम न दुर्वाच्युभ सूर्योवाच लज्जा में महते चाद्यदि ग्छा्यम था वाचताम सर्वे म्य संचय शक्षा तम विजम चाद ये मंत्रा शुभृश कुेन्मा तम भजीष्यसी कन्याधर्म से न ज्ञास्यन्ति जना किल मत्थमस्तु तथा पुत्रो भविता ते वरानुने तरणे कुन्तीं तन्मनस्कां सुलज्जिताम् भुक्त्वा देवेशो वरं दत्वाञ्छितं गर्भं दधार सुगुप्ते मन्दिरे स्थिता धातृवेद प्रियाचैका न माता ना मनोहर, गुप्त सद्मातिमनोहर कवचेनातिरम्येण कुंडलाभ्यामतीय सूर्यस्तु कुम चापर कृत्थात्री सुलज्जिता का भो रोसम आधत् स्थितास्म्य हम मंजूषायां सुतकुती मुंच्रवीत किं करोमि सुताहम् त्यजे त्वां प्राणवल्लभम् मन्दभाग्या त्यजामि त्वां सर्वलक्षणसंयुतम् पातु त्वां गुणा गुणा भगवती सर्वेश्वरी चाम्बिका सन्न्यं सैव ददातु विश्वजननी कात्यायनी कामदा द्रक्ष्येऽहम् मुखपङ्कजम् सुरलितम् प्राणाप्रियार्हं कदा त्यक्त्वा ताम् त्वाम् विजने वनेरविसुतम् दुष्टा यथा स्वै ऋणे पूर्वस्मिन्नपि जन्मनि दृजगताम् मातानुचाराधिता न जातम् पदपङ्कजम् सुखकरम् देव्या शिवायाश्चिरम् तेनाहम् चतुदुर्भगास्मि सततम् त्यक्त्वा पुन तप्स्यामि प्रियपातकं स्मृतवती बुद्ध्या कृतं यत् स्वयम् श्रुत उवाच इत्युक्त्वा कुन्ती मञ्जुषायां धृतं किल धात्री हस्ते दतो भीता जनदर्शनतस्तथा स्नात्वा तदा कुन्ती पितृ वैष्मन्युवासहदा मञ्जूषाभमाना च प्राप्ता ह्यधीरथेन च रथेन राधा राधासूतस्य भार्या वैतया स प्रार्थितः सुतः कर्णो भूत बलवान् सूत सद्मने कुन्ती विवाहिता कन्या पाण्डुना सा स्वयंवरे माद्री चैवापरा भार्या मदरराज सुता शुभा, मृगयां रममाणा तु वने पाण्डुर्महाबलः जघानाम् मृगबुद्ध्या तु रममाणं मुनिं वने शप्तस्त्वेन तदा पाण्डुर्मनिना कुपितेन च स्त्रीसङ्गम् यदि कर्तासि तदा ते मरणम् ध्रुवम् इति मुनिना पाण्डुकसमन्वितः त्यक्त्वा राजम् वने वासं चकार भृशदुःखितः कुन्ते मादरी च भार्ये द्वे जग्मतु सह सङ्गते सेवनार्थम् सति धर्मम् मुनिसत्तमः गङ्गातीरे स्थित पाण्डुमुनी नामाश्रमेषु च श्रुण्वानो धर्मशास्त्राणि चकारे दुश्चरं तपः कथायाम् वर्तमानायाम् कदाचित् धर्मसंश्रितम् अश्रुणोद्वचनम् राजा सुपुष्टम् मरिभाषितम् अपुत्रस्य गते नासि स्वर्गे गन्तुम् वरन्द्व येन केनाप्युपायेन पुत्रस्य जननम् चरेत् औषज पुत्री गा पुत्र क्षेत्रोल कुंडस्तो सहोड़ क्रीत प्राप्त धनगाही दत्तकना चाशक्त सुधा उतरो निकृष्टा निश्चय तदा कुम कमोचना शुत्श प्रियाशु त्वम् मुनिम् गत्वा तपोन्वितम् पुरा राज्ञा महात्मना वसिष्ठा जनित पुत्र सौदासेनेति मे श्रितम् तम् दत्तो दुर्वासुता पूर्वम् सिद्धिः सर्वथा प्रभो निमन्त्रयेऽहम् यम् देवम् ना पार्थिव आगच्छेत् सर्वथा सौ वै मम पार्श्वम् निमन्त्रितः भक्तुवार्वाक्येन स तत्र स्मृत्वा धर्मम् सुरोत्तमम् सङ्गम्य शुशुभे पुत्रम् च युधिष्ठिरम् वायुर्वृकोदरम् पुत्रम् जिष्णुम् चैव शतक्रतो वर्षे वर्षे तयः जाता महाबलः मादरीप्राहपतिं पाण्डुं पुत्रं मे कुरु मथत्तमा किं करोमि महाराज दुःखं नाशय मे प्रभो प्रास्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता एकपुत्र प्रबन्धेन माद्रीपतिमते स्थिता स्मृत्वा तदा श्विनो देवो मधुरराज सुता सुतौ नकुलस देव च शुशुवेणिने एवं ते पाण्डवा पञ्चक्षेत्रस्पन्नासुरात्मजा वर्षवर्षान्तरे वाच्च दातावने तस्मिन् वृयोत्तमः एकस्मिन् समये पाण्डुर्माद्रिं दृष्ट्वा निर्जने आश्रमे चाति कामातो जग्राह आगतवैश्च सः मामेति बहुधा निषिद्धोऽपि तथा वृक्षम् आलिलिङ्ग प्रियां दैवा धरणीतरे यथा वृक्षकधा वल्ली छिन्ने पतति वैद्रुमे तथा सा पतिता बालः कुर्वन्ति रोदनम् बहु प्रत्यागता तथा कुन्ती रुदती बालक तथा मुनयश्च महाभाग श्रुत्वा कोलाहनं तदा, तदा। मृतः कोला तदा।, तदा सर्वे मुनय संशितवृतः स्वाग्निभिः विधिम् कृत्वा गङ्गातीरे तदादहन् चक्रे सहैव गमनम् मादृ दत्ता सुतोषिषु कुञ्चै धर्मम् पुरस्कृत्य सुपि नां प्रत्यगामतः जलदानादिकम् कृत्वा मुनय सत्रवासिनः पञ्चपुत्रयुताम् कुन्तीम् अनयन् हस्तिनापुरम् तां प्राप्तां च समाज्ञाय गाङ्गय्यो विधुरथा नगरीं धृतराष्ट्रस्य सर्वे तत्र समायेयुः कस्य जिना सर्वैकस्य पुत्रावरानने पाण्डुशापं समाज्ञाय कुन्ती विता सदा तानुवाच सुराणां वे पुत्रा कुरु कुलोद्भवात् विश्वासार्थं समाहूता कुन्त्या सर्वे सुरा सदा, आगत्य खेतदातै कथितं नः सुता किल भीष्मेण सत्कृतं च सत्कृता सुता गता नागपुरं सर्वे तानादाय सुतानुवधुम् भीष्मादये प्रीतचित्ता पालयाम सुरर्थतः एवं पाठातमुत्पन्ना गङ्गये नाथ पालितः इति श्रीमद्देवी भागवते मा पुराणे अष्टादश द्वितीयस्कन्धे युधिष्ठिरादीनाम् उत्पत्ति वर्णनं नाम षष्ठोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु